श्रीमद्भागवत् महापुराणं दशं स्कन्धं किमेतद्भुतमिदमिव वासुदेवेऽखिलात्मनि व्रजस्य सात्मनस्तोके स्वपूर्वं प्रेमवर्धते केयं वा आयाता दैवीवा नारितासुरी प्रायो मायासतु मे भर्तुर्नान्या इति सञ्चित्यदासार्हो वः सान् सवयसानपि तर्वानाचष्टवैकुण्ठं चक्षुषावयुनेन नैते सुरेशा ऋषयो न चैते त्वमेव भासिष भिद्राश्रयेऽपि धर्वं पृथक्त्वं निगमात्कथं वदे त्यक्त्युक्तेन वृतं त्रिगुणाबलो वैत् तावदेत्यात्मभूरात्ममानेन त्रु त्रुट्य निसहसां पुरोवदब्दं क्रीडन्तं दादृशे शकलं हरिं यावन्तो गोकुले बाला सवसाः सर्व एव हि मायास एषयानामे नाद्यापि पुनरुत्थिताः इत तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् एवमेते सुभेदे सूचरं ध्यात्वा स आत्मभू सत्या के कतरे नेति ज्ञातुं नेष्टे कथञ्चन एवं सम्मोहयन् विष्णुं विमोहं विष्णुमोहनं स्वयैव माय्याजोऽपि स्वयमेव विमोहितः तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहने महतीतरमायैस्यं निहन्त्यात्मनि संयुञ्जतः तावत् सर्वे वस्सपाला पश्यतोजस्य तत्क्षणात् भ्राजिष्यन्तघनश्यामाः पीतकोशे वासत चतुर्भुजा शङ्खचक्र गता राजीवपाळयः किरीटिनकुण्डलिनो हारिलोवनमालिनः शिवसाङ्गदोरत्नकम्बुकङ्कणपाळयः नूपुरैर्कटकैर्भ्राताः तुलसी आघ्रीमस्तकमापूर्णा तुलसीनवदामभि सर्वगात्रे सर्वगात्रेषु भूरिपुण्यवदर्पितैः विसदस्मेरे सारुणा चन्द्रिकाविसदस्मेरैः सारुणापाङ्गवीक्षितैः सकार्थानामीव रज सत्त्वाभ्यां स्वीपालका आत्मादिस्तम्भपर्यन्तैर्मर्तिमद्भिश्चराचरैः नित्यगीताद्यनेकार्ह्यैः पृथग् प्रिसक पृथगुपासिता अणिमाद्यैर्महीमभि अजाद्याभि विभूतिभिः चतुर्विंशतिभिस्तत्त्वयि परीता महतादिभिः कालस्वभावसंस्कारकामकर्मगुणादिभिः समहिध्वस्तमहिमहीभिर्भूतिर्मद्भिरुपासिता सत्यज्ञानानन्तानन्दमात्रैकसर्मृतन्मूर्तयः तत्पृष्ट भूरिमाहात्मा अपि शुपनिसन्दृशम् एवं सकृतदर्शाज परब्राह्मात्मनोखिलाम् यस्य भाषा सर्वमिदं विभाति सचराचरं ततोऽचिकुतो कोदवृत्तस्मीमितैकादशेन्द्रियः तद्धाम्ना भूजस्तूणिं पुरते व्यन्तीव पुत्रिकाम् इतिरेशे तर्के निजमहिमनी स्वप्रमितिके परत्रा जातो तन्निरसन्मुखब्रह्म कङ्कमितौ अनीसेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति यथा राजो ज्ञात्वा सपति परमो जाजवनिकां ततोर्वाक्प्रतिलब्धाक्ष कपरे तवदुत्थितः यच्छादुन्मील्य वै दृष्टिराचष्टेदं सहात्मनां सपद्देवाभितपश्यन्ति सो पश्यन् पुरः स्थितं वृन्दावनं जनाजिभ्यद्रुमाकर्णं क्षमाप्रियं यत्र नैसर्गदुर्वैरासहांसनमेगादयः निद्राणि वाजिता वा सद्रुतरूपं तर्शकादिकम् तत्रोद्वहत पशुपवं स शिशुत्वन्नाट्यं ब्रह्माद्वयं परमनन्तमगाधबोधं वस्सां सखेन पुरा परितो विचिन्वन् एकं सपाळीकपवलं परमेशचष्ट दृष्ट्वा त्वरेण निधितोरणतोऽवतीर्य प्रद्व्याम्बपुकनकदण्डमिवाभिपाद्य दृष्ट्वा चतुर्मुकुटकोटिभिरङ्घ्रियुग्मं नत्वा मुदस्रू सुजलैरकृताभिषेकम् उत्थायोत्थाय कृष्णस्य चिरस्य पादयो पतन् आस्ति महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुन शनैरथोत्थाय विमज्जलोचने मुकुन्दमुद्वेक्ष्य विनम्रकन्धर गीताञ्जलिप्रश्रयवाणसमाहितशवेपतुर्गदं गदयै लते लयां ते श्रीमद्भागुते महापुराणे पारंशां शयितायां दशमस्कन्धे पर्वार्धे त्रयोदशोऽध्यायः